ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 23 वसिष्ठ उवाच तपस्विनं तदा राममेकाग्रमनस्सम्भवे रहस्येकान्दनिरतं नियतं शंसितव्रतं श्रुत्वा तमृषय सर्वे तपो निर्धूतकल्मषाः ज्ञानकर्मवयोवृद्धा महान्तशंसितव्रताः दिदृक्षवसमाजमुतूहलसमन्विताः ख्यापयन्तस्तपश्रेष्ठं तस्य राजन्महात्मनः भृग्वत्रि वामदेव ्रदुज्जाबालिवामदेवमृकण्टवः सम्भावयन्तस्ते रामं मुनयो वृद्धसम्मताः आ जग्मुराश्रमं तस्य रामस्य तपसस्तपः दूरादेवमहान्तस्ते पुण्यक्षेत्रनिवासिनः गरीयसर्वलोकेषु तपोग्र्यं ज्ञानमेव च प्रशस्य तस्य सर्वे प्रययुस्वं स्वमाश्रमम् एवं प्रवर्ततस्तस्य रामस्य भगवाञ्छिवः प्रसन्नचेतानितरां बभूव नृपसत्तमा जिज्ञासुस्तस्य भगवान् भक्तिमात्मनिशङ्करः मृगव्याधवपुर्भूत्वा ययौ राजंस्तदन्तिकम् भिन्नाञ्चनचयप्रख्यो रक््रान्तायतलोचनः शरचापधरप्रांशुर्वज्रसंहनो युवा उत्तुङ्गहनुबाह्ंसः पिङ्कलश्मश्रुमूर्धजः मांसविश्रवसागन्धि सर्वप्राणिविहिंसकः सकण्डकुलदास्पर्शक्षदारूषिदविग्रहः सामट सञ्चर्वमाणश्च मांसखण्डमनेकशः मांसभारद्वयालम्बिविधानानदकन्धरः आरुजंस्तरसावृक्षानूरु वेगेन सङ्घः अभ्यवर्तत तं देशं पादचारीव पर्वतः आसाद्य सरसस्तस्य धीरं कुसुमिदद्रुमं न्यदधान् मासभारं च समूले कस्यचित्तरोः निशस्सादक्षणं तत्र तरुच्छायामुपाश्रितः तिष्ठन्तं सरसस्थिरे सोपश्यद्भृगुनन्दनम् तत स शीघ्र मुद्दा कराग्भ्यां विदधेम चेषुचापाभ्यादेम जलि सजलांबोदसन्नादगंभीण स्वरेण जगाद भृगुशादूल गुहांधर विसर्पिणा ोषप्रवर्षव्याधोऽहं वसाम्यस्मिन्महावने ईशोऽहमस्य देशस्य सप्राणितरुधः चरामि समचित्तात्मा नानासत्त्वा समस्त सर्वूत नादि मे अभक्ष गम्य वस्तुषु कुत्रचित। पेयादिछस्तुषु कृत्या कुचि कृत्याशीरह कृत्या प्रपन्नों नभिगमनमसम क्यचि शक्रस्यापि बलेनाहमनुमन्येन संशयः जानदे तद्यदात् सर्वे देशोऽयं मधुपाश्रयः तस्मान्न कश्चिदायादिममात्रानुमतिं विना इत्येष मम वृत्तान्धकार्ष्ण्येन कथितस्तव त्वं च मे ब्रूहितत्वेन निजवृत्तमशेषतः कस्त्वं कस्मादिहायादः किमर्थमिह धिष्ठितः उद्यतोऽन्यत्र वागन्तुं किं वा तव चिकीर्षितं वसिष्ठ उवाच इत्येवमुक्तः प्रफसंस्त्यनरामो महाद्विधिः तूष्णीं क्षणमिव स्थित्वा कोयमेव किञ्चिदवाङ्मुखः कोयमेव दुराधर्षसजलाम्भोदनिस्वनः ब्रवीति च गिरोत्यर्थं विस्पष्टार्थपदाक्षराः किन्तु मे महदीं शङ्कां तनुरस्य तनोदि वै विजादिसंश्रयत्वेन रमणीया तथा शराः एवं चिन्तयदस्तस्य निमित्तानि शुभानि वै बभूवुर्भुवि देहे च स्वाभिप्रेदार्थदान्यलम् तदो विमृश्य बहुशो मनसा भृगुपुङ्गवः उवाच व्याधं वचनं सूनृताक्षरं जामदग्न्योऽस्मि भद्रं ते रामो नाम्नादु भार्गवः तपश्चर्तुमिहा यादः साम्प्रतम् गुरुशासनात् तपसा सर्वलोके भक्र्याच नियमेनच नियमेन च आराधयितुमस्मिंस्तु चिरायासं समुद्यदः तस्मात्मर्वेश्वरं सर्वशरण्यमभयप्रदम् त्रिनेत्रं पापदमनं शंकरं भक्तवत्सलं तपसा सा तोषयिष्यामि सर्वज्ञं त्रिपुरान्तकम् आश्रमेऽस्मिन् स्वरस्थिरे नियमं समुपाश्रितः भक्तानुकंपी भगवान् यावत्प्रत्यक्षतां हरः उपैदि तावदत्रैव स्थास्यामीदि मदिर्मम तस्मादितस्त्वयाद्यैव गन्तुमन्यत्र युज्यते न चेद्भवति मे च माननीयोऽथवाकं ते निवासमुपायादस्तपस्वी च तथा मुनिः त्वदः संनिधौ निवासो केवलं तव चाप्य सुखोदर्कं मत्समीपनिषेवणं स त्वं मदाश्रमोपान्दे परिचङ्क्रमणादिकम् परित्यज्य सुखी भूया लोकयोरुभयोरपि वसिष्ठ उवाच इति तस्य वच श्रुत्वा स भूयो भृगुपुङ्गवम् उवाच रोष ताम्राक्षस्ताम्राक्षमिदमुत्तरं ब्रह्मन् किमिदमत्यर्थं समीपे वसति मम कृधग्नस्येव येन कृधघ्नस्येव काम्प्रदं किं मया पकृतं लोके भवतोऽन्यस्य वा क्वचिद् अनागस्कारिणं दान्तं को सन्निधिपरिहर्तव्यो यदि मे विप्रपुङ्गवदर्शनं सह संवासः सम्भाषणमधापि च आयुष्मदाधुनैवास्मादपसर्तव्यमाश्रमाद स्वसंश्रयं परित्यज्य क्वा कं स्वाधिवासं परित्यज्य भवदा योदिधकथम् इदोऽन्यस्मिन् गामिष्यामि दूरे नां विशेषदः गम्यतां भवदान्यत्र स्थीयतामत्र वेच्छया नाहं चालयितुं शक्यस्थाना वसिष्ठ उवाच तच्छ्रुत्वा वचनं तस्य किञ्चित् तमुवाच पुनर्वाक्यमिदं राजन् भृगुद्वहः व्याधजातिरियं क्रूरा सर्वसत्त्वभयावहा खलकर्मरदानित्यं धिकृदा सर्वजन्तुभिः तस्दापीयांसक सकताज्युजन जादियं तस्मान जातीय व्यतिमाभ्यथ शीघ्रमस्म व्रजान्य विचारण शरीरत्राणकारुण्यात्समीपं नोपसर्पसि यथा त्वं कण्टकादीनामसहिष्णुतया व्यथां तथा वे हि समस्तानां प्रियाः प्राणा शरीरिणां व्यथा चाभिकदानां तु विद्यते भवतोऽन्यथा हिंसा सर्वभूतानामिति धर्मः सनातनः ये तद्विरुद्धाचरणान्नित्यं सद्भिर्विगर्हितः आत्मप्राणाभिरक्षार्थं त्वमशेषशरीरिणः हनिष्यसि कथं सत्सु नाप्नोषि वचनीयतां तस्माच्चीक्रन्दुभोगश्च त्वमेव पुरुषाधम त्वयामे मे कृत्यदोषस्य हानिश्च न भविष्यति न चत्स्वयमिदो गच्छेत्ततस्तव बलादपि अपसर्पणदा बुद्धिमहमुत्पादये स्फुटम् क्षणार्थमपि ते पापश्रेयसि नेखसंस्थितिः विरुद्धाचरणो नित्यं धर्मदृष्को लभेच्छां वसिष्ठ उवाच रामस्य वचनं श्रुत्वा प्रीतोऽपि तमिदं वचः उवाच संक्रुद्ध इव व्याधरूपी पिनाकधृक् सर्वमेतदकं मन्यं व्यर्थं व्यवसितं तव कुतस्त्वं प्रथमो ज्ञानी कुतः शम्भुः कुतस्तपः कुतस्त्वम् क्लिश्यसे मूढतपसात् तेन तेऽधुना ध्रुवं मिथ्या नहितुष्यदि न हि तुष्यति शङ्करः प्रतपत्यबुधो मर्त्यस्त्वां विना मुदुर्मदे अथवा च गदमेध्य युक्तमेदधसंशयं सम्पूज्य पूजकविधौ शम्भोस्तव च सङ्गमः त्वया पूजयितुं योग्यो नात्र विचारण पितामहशोका ब्रह्मण पठिन शिश्चिव शंभु ब्रह्म ब्रह्मिभूत प्रायस्त शंभुना शंभुनाद्विज उपसिष्टोसि तत्कर्त नोचे देवं कथं कृताः तादात्म्यगुणसंयोगान्मन्यं रुद्रस्यतेऽधुना तपःसिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने प्रायोद्यमादरं हत्वा सर्वैर्लोङ्कैर्निराकृतः तपोव्याजेन गहने निर्जने सम्प्रवर्तसे गुरुस्त्रीब्रह्महत्योऽद्धपादकक्षपणाय च तपश्चरसि नानेन तपसा तत्प्रणश्यति पादकानां किलान्येषां प्रायश्चित्तानि सन्त्यपि मातृद्रुहा मवेहित्वं मा न क्वचित् किल निष्कृतिः धर्मो लोकेषु यदि ते स्वहस्तेन कथं राम मादरं कृतवानसि कृत्वा मातृवधं घोरं सर्वलोकविगर्हितं त्वं पुनर्धार्मिको भूत्वा कामतोऽन्यान्विनिन्दसि पश्यदा हसता मोखम् आत्मदोषमजानता अपर्याप्तमहं नन्यं परं दोषविमर्शनां स्वधर्मं यद्यहं त्यक्त्वा वर्तेयमकुलोभयं तर्हि गर्हय मां कामम् निरूप्यमनसा स्वयं मादापितृसुतादीनां भरणायैव केवलं क्रियते प्राणिहननं निजधर्मदया मया स्वधर्मादामिषेणाकं सकुडुम्बो दिने दिने वर्तामि सापि मे वृत्तिर्विधात्रा विहिता मांसेन यावदाम्मे स्यान्नित्यं पित्रादिपोषणम् अनिष्ये चेत्तदधिकं तर्हि युज्येयमेन सा यावत्पोषणखादेन न वयं श्यामनिन्दिता वा तदेतत्सम्प्रदायत्वं निन्दवा मां प्रशंस वा साधु वा साधु वा कर्म यस्य यद्विहितं पुरा तदेव कर्तव्यमापद्यपि कथञ्चन निरूपयस्वबुद्ध्यात्वमात्मनो मम चान्तरम् अहं तु सर्वभावेन मित्रादिभरणेरतः सन्त्यज्यपितरं वृद्धं विनिहत्य च मातरम् भूत्वाद् धार्मिकस्त्वं तु तपश्चर्तुमिहागतः यदुमूलविदस्तेषां विस्पष्टं यत्र दर्शनं यथाजिह्वं भवेन्नात्र वचसापि समीहितुं। अकंतु तु तव वृत्तमशेषतः तस्मा तस्मादम ते तपस निष्फलन भृगुद्व सुखमीछसी याहि रामत्वमन्यत्र यत्रवान विदुर्जना इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे त्रयोविंशतितमोऽध्यायः ओ